गणेशपुराणम् उपासनाखण्डम् अध्यायं ट्वेण्टि टु राजोवाच आश्चर्यभूतं कथितं दक्षपुत्रस्य चेष्टितं विस्मयो मे महांस्तत्र सं जादो मुनिसत्तमा अन्धकुब्जस्रवद्रक्तः पूजिगन्धसमन्वितः वाचाविहीनो मेध्यश्च श्वासमात्रावशेषितः कथं मुद्गलदेहोद्ध वायुना दिव्यदेहभाक संजातकेन पुण्येन मुक्तो वा mm. पादकात्कुतः दिव्यवर्षसहस्रं यस्ततापपरमं तपः कथम <्कादं> तस्या भवन्नैव दर्शनं देवकाङ्क्षितं कथं वल्लभपुत्राय देवदेव इभाननः प्रत्यक्षो भूद्विना क्लेशः सचक च कः पूर्वजन्मनि येदः संश्रयजातं मे नुद सर्वज्ञते नमः न कृप्यामि पिबन्नित्यं गजाननकथामृदं विश्वामित्र उवाच सम्यक् पृष्ठं त्वया राजन् संशयच्छेदनायते वदामि निखिलं सम्यक् शृणुष्वै गमनानृप सिन्धुदेशेदिविख्यादापलीनां नाभवत्पुरी ना तस्या मासि धनिवै्यश्रेष्ठकल्याण संज्ञकः वधान्यकुशलो धीमान् द्विजदेवपरायणः इन्दुमतीति विख्यातपत्नी तस्य शुभानना पदिव्रतपदि प्राणापदिवाक्यपरायण तयोः कालेन संजादो। गुणवान् पुत्र उत्तमः कल्याणप्रददौ धेनोर्वस्त्रालङ्करणानि च ब्राह्मणेभ्योऽधरत्नानि काञ्चनम् भूरिदक्षिणाम् ना। ज्योतिर्विद्भिर्निगदितं नाम चक्रे सुदस्य सख बल्लाल यदि विख्यातं बलदेव्याच्छुभं तदा स च काल न महदा वयसम दें पूजारदो नियान्मदा एक वम जाल प्रमुखा सुता क्रीड़ारदास्ना उपलेप्य सुंदर गणेशबुद्ध्या संपू्य दुर्वाकुरं सुपल्लवैः केजिद्ध्यानरतास्तस्य नामजाप्यं प्रचक्रिजे केजिच्च ननृतुस्तत्रयधेष्टं देवभक्रितः केजिच्च गानकुशला जगुर्देवस्य तुष्टये केचित् काष्ठैः पल्लवैश्च मण्टपं चक्रुरोजसा केचिद्भित्तिपरीवेष्यं केचित् प्रासादमुत्तमं केचिन्मानसपूजाभिः केचित् पुष्पलतादिभिः धूपं दीपं च नैवेद्यं फलताम्बूलदक्षिणाः निवेद्य पुपूज्यस्तस्मै मुदा परमयायुधाः केचिच पंडिता भूत पुराण्यब्रुवं तथा व्याचक्रोधर्मशास्त्रण ग्रंथान्या कैचन एवं देवरता सर्वे निण्यो दिवसा बहून न क्षुधान्नां कोऽपि जानन्देवस्य भक्तितः एकदा जनकास्तेषां कल्याणवैश्वमन्वयुः अब्रुवन् रोषिताः सर्वे स्वबल्लालं निवारय शिष्यून् सर्वान् समाहूयवनं यादिने दिने, दिने। नायान्दिप्रादराशायमध्याह्ने या निशामुखे कृशानो बालकाजादास्वसुदं शिक्षयाधुना नो चेद्वयं निमध्वैर्डयामः इतः परं पुराधिपमथाभेत्य त्वां बहिः करवामहि इति तेषां वचत् श्रुत्वा श्रुतपूर्वं कदाचन रोषा वेश्याच्च कल्याणो जपा कुसुमलोचनः महान्तं दण्डमादाय ताडनार्थं सुधं ययौ दण्डाखादेन गत्वैव मण्डपं प्रबभञ्चः बालकाश्च ततः सर्वे जग्मुर्दशदिशो नृप एक एव स बल्लालो दृढभक्त्या स्थिरोभवद सदं धृत्वा दण्डेना ताड्यद्भृश्यं यथा सर्वशरीरा तु धाराश्रोणिदसम्भवाः वारिधारा वर्षाकाले यथा गिरे चिक्षेपदूरदः पश्चाद्देवं सिन्धूरसुन्दरं बबन्धतं सुतं वृक्षे वल्लीपाश शतैर्दृढम् पुत्रस्नेहम् परित्यज्य यमदूत इवापरः मुक्तो दन्तैर्नहस्ताभ्याम् पादाभ्याम् न यद्धा भवेद उवाच पश्चात्तम् पुत्रं देवस्त्वाम् मोचयिष्यति सद्धाता भोजनं पानं पानम् गोपनम् च करिष्यति यदि गृहमायासि तदा सत्यम् मरिष्यसि मुनिरुवाच विभज्य देवालयमाशु यादकल्याणवैश्योदिरुषानिविष्टः स्वमन्दिरम् बध्यवने स्वपुत्रं दैवस्य योगादभवत् सुदुष्टः तस्मिन् प्रयाते सज वैश्यपुत्र शुशोचदेवं मनसा विचिन्त्य विघ्नारित्येव कथं नु देवनामाभवत् सर्वजनेषु गीतं दुष्टांश्च विघ्नानि न नाशयेस्त्वं दुष्टान्तकत्वेन कथं प्रसिद्धः शेषो वनिं वा सविताधीप्तिं चन्द्रो मृदं वह्निरधोष्णतां च त्यजेत्स्व भक्तान्न च सन्ध्यजेधा वेदेषु शास्त्रेषु कथं प्रसिद्धिः एवं विलप्याथ निजं कल्याणसंज्ञं पितरं सुदुष्टं येनेदं मम विध्वस्तं देवालयमनुत्तमं गणेशमूर्तिविक्षेपं ताडनं च ममाकरोद स चान्धो बधिरकुब्जो मूको भवति यदिमे यदि मे सुदृढा भक्तिर्द्विरदानन तदोक्तं मम सत्यं स्यात्तस्य सर्वं मयोदिदं न बद्धे भक्तिमनसि शक्तोसौ देहबन्धने अनन्यबुद्ध्या परिचिन्त्य देवं त्यजामि देहं विजने वनेऽस्मिन् पलायनं नैव कृतं यदैव तदैव देहोऽर्पित एष देवे तस्यैवं निश्चयं बुद्ध्वा प्रादुरासीद्गजाननः ब्राह्मणस्य स्वरूपेण बल्लालस्य प्रभावतः यथा निशातमोपाये श्रीमूर्य उदयाचले तथैव बन्धनान्यस्य तेजसा शिथिलानि च जातानि तदयेन नमश्चक्रेध दण्डवद देहस्य चारुदाजादा नक्षदं न क्षतं न च शोणितं ज्ञानं च निर्मलं जातं देवदेवस्य दर्शनाद तुष्टाव विविधैर्वाक्यैर्यथामधिगजाननं बल्लाल उवाच त्वमेव मादासि पितासि बन्धुस्त्वमेव कर्तासि चराचरस्य निर्मासिदुष्टांश्च कलांश्च साधून्योनौ वि योनौ विनियुङ्क्ष्यथापि त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्धोषधि दादुरूपः मुनिरुवाच युधिस्तु दिं समाकर्ण्य सुप्रसन्नो गजाननः आलिङ्ग्य निजभक्तं तमुवाच खननिस्वनः गजानन उवाच प्रासादोयन न भग्नो मे नरकेशपदिष्यति तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया अन्तोध बधिरकुब्जो मोको सृस्रावसंयुधः मम शापं समासाद्यभविष्यति न संशयः पिता समादृकं चयनं करिष्यति गृहाद्बहिः अन्यते वाञ्छितं ब्रूहि दुष्प्रापमपि ददे मुनिरुवाच बल्लालो धाब्रवीदेवं त्वयि भक्तिर्दृढास्तु मे अस्मिन् क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नदः गणेश उवाच त्वन्नाम पूर्वमन्नाम भविष्यदि जने शुभं बल्लालविनायकेदिनगरे सुप्रतिष्ठितं मयि चित्तं स्थिरं ते भक् व्यभिचारिणि यात्रा मम करिष्यन्ति नगरे पल्ली संज्ञिके भाद्रपदशुक्लचतुर्थ्यां ये तेषां कामान् ददाम्यहं भृगुरुवाच इति दत्त्वा वरं देवस्तत्रैवान्दरधीयत ततो विनायकं स्थाप्य बल्लालो ब्राह्मणैः सह प्रासादं कारयामासनाशोभासमन्वितं विश्वामित्र उवाच बल्लालवैनायकेदि कथितं ते कथानकं यच्छ्रुत्वा सर्वपापेभ्यो मुग्धकामानवाप्नुयात् इति श्रीगणेशपुराणे उपासनाखंडे बल विनायकथनमशोध्याय ओम।